श्रीमद्भागवत् महापुराणं दशमस्कन्दम् अथ पञ्चाशीतितमोऽध्यायः श्रीभगवान् के द्वारा वसुदेवजी को ब्रह्मज्ञान का उपदेश तथा देवकी जी के छ पुत्रो को लौटाला नाम श्रीबादरायण रुं रुवाच अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ वसुदेवोऽभिनन्द्याः प्रीत्या शङ्कर्षणाच्युतौ मुनिनां स वच श्रुत्वा पुत्रयोर्धामसूचकम् तद्विर्यै जातविस्रम्भ परिभाषाभ्यभाषत कृष्णकृष्णमहायोगिन् शङ्कर्षं सुनातनम् जाने वामस्य साक्षात्प्रधानपुरुषौ परौ यत्र येन यतो यस्य यस्मै यद्यथां तदा यदां स्यादितं भगवान् साक्षात्प्रधानपुरुषेश्वरः एतन्नाविधं विश्वम् आत्मश्रेष्ठमथोक्षज आत्मनानो प्रविश्यात्मन् प्राणो जीवोऽभ्यवर्षज प्राणादीनां विश्वसुजां सक्तयो या परस्य ताः पारतन्त्याद्वयसादृश्याद्वयोश्चेष्टैव चेष्टताम् कान्तिस्तेजप्रभा सत्तार्कक्षं विद्यतां यः स्थैर्यम् भूभृतां भूमेर्वृत्तिगन्धोऽर्थतो भवान् तर्पणं प्राणनपुं नमपां देवत्वं तास्य तद्वशः ओजसहो बलं चेष्टा गतिर्वायोसवेश्वर दिशां तमवकाशो सेदिसखं स्फोट इन्द्रियं तिन्द्रियाणां तं देवाश्च तदनुग्रह अवबोधो भवान् बुद्धे जीवस्याणुस्मृति सती भूतानामसि भूतादि इन्द्रियाणां च तेजसः वैकारिको विकल्पानां प्रधानम् अनुषायिनां न स्वरे स्वीयभावेषु तदसीतमनस्वरं यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् सत्वं रजस्तं यति गुणास्तन्वृत्तयश्च याः त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमाययाम् तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः त्वं चामेषु विकारेषु ह्यनन्दा व्यवहारिकः गुणप्रवाह एतस्मिन्नबुधात्वकिलात्मनः गतिं सूक्ष्मामवबोधेन संसरन्ति ह्य कर्मभिं यदीक्षयानुतां प्राप्य सुकल्पामिह दुर्लभाम् स्वार्थे प्रमत्तस्य वयो गतं तन्मायीश्वर असावहं ममैवेतिं देहे चास्यान्वयादिषु नेहपाशे निबध्नाति भवान् सर्वमिदं जगत् युवां न श्रुतौ साक्षात्प्रधानपुरुषेश्वरौ भूभारच्छद्रपळम् अवतीर्णौ तथा दत्ते गतौ स्मरणमद्यपदारविन्दम् आपानसंशतभयापहं मार्तबन्धो एतावतालमलमिन्दियलालसेन भर्त्यात्मधित्वयि परे यदपत्यबुद्धे सूतिगृहे ननु जगाद्भवानजोनौ संयज्ञ इत्यनुयुगं नानातनुर्गगणवन्विदधज्जहासि को वेद भुम्नमुर्गायुभूतिमायां श्रीशु उवाच आकर्णेत्थं पितर्वाक्यं भगवान् सा प्रत्याह प्रस्रया न प्रहसच्छणया गिरां श्रीभगवानुवाच वचोव संवेतार्थं तातैतदुपमन्महे जन्मपुत्रान् समुद्दिश्य तत्प्रगाम उदासीतः अहं योयमसा वार्य इमे च द्वारकौकशः सर्वेऽप्येवं यदुश्रेष विमृष्यासुचराचरम् आत्माधिक स्वयं ज्योतिर्नित्योऽन्यो निर्गुणो गुणैः आत्मश्रेष्टै तत्कृतेषु भूतेषु बहुधीयते खं वायुर्ज्योतिरापो भुस्तत्कृतेषु यथाशयम् आवेस्तिरोऽल्प नानात्वं याद्यसावपि शीशोकुवाच एवं भगवता राजन्वसुदेव उदासीतं श्रुत्वानश्च नानाधितृष्णिं प्रीतमना अभूत् अथ कुरुश्रेष्ठ देवकी सर्वदेवता सुत्वानीतं गुरोपुत्रमात्मजाभ्यां सुविस्मिताम् कृष्णरामौ समाश्राव्य पुत्रान् कंसभिहिंसितान् स्मरन्ति कृपणं प्राह वैक्लव्यास्त्रुलोचनां देवक्युवाच राम राम प्रमेयात्मन् कृष्णयोगेश्वरेश्वर वेदाहं वा विश्वासिजामिश्वरम् आवामादिपुरुषौ कालविद्वस्तसत्त्वानां राज्ञामुस्रुवर्तीनां भूमिर्भारायमाणानाम् अवतीर्णौ किलाद्य मे यस्यां सासां सभागेन विश्वोत्पत्तिलयोदयाः भवन्ति किल विश्वात्मन्तं त्वाद्याहं गतिं गता चिरान्वृतसुतादाने गुरुना कालचोदितौ आनीन्यथौ पितृस्थानान् गुरुवे गुरुदक्षिणां तथा मे गुरुतं कामं जिवां योगेश्वरेश्वरौ भोजराज हतान् पुत्रान् कामे द्रष्टुमार्हितान्